गणेशपुराणं क्रीडाखण्डम् अध्यायं ट्वेण्टि त्रि क उवाच सबालो बालमध्ये दुचिक्रीडे राजा भद्रासनगदो नृत्यं सर्वजनैः सह यावत् पश्यति वेश्यानां तावदेवागदावुभौ देवलोकात्सदौरम्यम् सनकश्च सनन्तनः उद्भासितं तयोर्दीप्त्या सूर्याज्ञोरिव तत्सदख आसनादुदधिषट्स्थ नृपधिः सहसेक्ष्यतौ स्थिरस्ताप्य पादपद्मे साष्टाङ्गं प्रणनाम तौ बद्धाञ्जलिरुवाचार्ध अद्य धन्यं कुलं मम राज्यं ज्ञानं च देहश्च पत्नीपुत्रादिकं च यद् युत्युक्त्वा पाणिना धृत्वा स्वासने चोपवेश्य तौ उपचारः षोडशभिरपूज यद भक्तिदः तौज ज विश्रामयामास पादसंवाहनादिभिः पुनः पुनः प्रणम्यासौ वक्तुं समुपचक्रमे राजोवाच मुनीनां न्यस्तदण्डानां निःस्पृहाणां च सर्वदा का जलिप्सा न तपोराज्यं कुलं शीलं सार्थकं कर्तुमुद्यतः तावूच दुः अवाप्तसर्वकामोऽसौ परब्रह्मस्वरूपवान् लीलावतारी भगवान् पश्य पश्य सुधस्तव गृहे नानकौ दुःखानि कुरु तेऽद्भुतविक्रमः श्रुत्वा वदानं तस्य अत्र द्रष्टुमावां समागतौ अन्यथा चक्रभवनत्यागे किं नः प्रयोजनं गृहे यस्य कल्पतरुत्सोऽं कियाचयिष्यति तस्योङ्घ्रिकमलं नत्वा गच्छाव स्वस्थलम् नृप एवं तयो रागधयो श्रुत्वा वाक्यं विनायकः वदतो रागदक्रीडां त्यक्त्वा मोदकहस्तकः पञ्चख्याद्यमयं भक्ष्य मोदकं लीलया दधद तयोस्तं दर्शयामास नृपो हास्यपरो मृदु सोऽयं समागतो देवो यद्दर्शनसमुत्सुकौ आगतो यच्च कर्तव्यं कुरु तं तद्यधेष्टदः तं निरीक्ष्य मुनि तौ तु परस्परमधो च दुः अनेन दूषितो नूनं पश्यपो मुनिसत्तमः तत्पुत्रदां समासाद्य स्वाचारं त्यजदा भृशं स्पृष्टास्पृष्टविचारोऽस्य भक्ष्या दर्शने स्पर्शने चास्य महान्तोषो भवेत्खलु कथं स्वनियमां त्यक्त्वा स्थितः क्षत्रियवेश्मनि स्वधर्मे स्थितानां तु दर्शनेनास्य किं भवेद् शुश्रावताम् गिरं देवो नृपः सन्निहितस्तदा उवाचवाक्यं वाक्यज्ञो वाचस्पदिरिवा परः क्व गदम्भवदो ज्ञानं वृद्धाश्रमवदोर्मुनी स्वर्गं त्यक्त्वा कथमिह सम्प्राप्तौ प्राकृताविव चु द्वेद्धं वचनं तस्य नृपतिं तावधो चतुः मायामयस्य माया देवस्य मायया मोहिदो भृशम् देह्यनुज्ञां गमिष्यावो निजमाश्रममण्डलं ततो नृपतिशार्दूलो दृढभक्तिप्रणोदितः स्थीयतां श्रूयतां वाक्यं मदीयमित्युवाच तौ भक्त्या च प्रार्थयामास स्नात्वा भुक्त्वानुगम्यतां निशम्य प्रार्थनां तस्य मोचदुर्मुनिपुङ्गवौ न भुज्येदे राजकीयमन्नं तस्माद् व्रजावहे तदनुज्ञं समासाद्य मणिकर्णि तदो गदौ विनायकः सर्वबालैरनुयादो मुदारमन् ज्ञात्वा गदशुक्लगृहं ज्ञात्वा तद्भक्तिमाधृतः यथा धावदि गौवत्सं यथा मादारुदच्छिषुं यथा कृष्णसभानीतां द्रौपदीं शरणागदां दृष्ट्वा कौ दम्पती देवं पादयोर्विनिपेतदुः आनन्दाश्रोणि मुञ्चन्दौ वाजागद्गदया लिलिङ्गदुर्मुदा देवं ननृ दुर्हर्षनिर्भरौ न विन्धदुप्रकर्तव्यं देहादीदाविवासदुः रोमाच्चाञ्चिदगात्रौ तौ बाष्पधाराममुञ्चतां मुहूर्ताल्लब्धसंज्ञौ तौ नेमधुर्जगदीश्वरं तत ऊजे मुनिर्देवम् दीननाधेधि दी यत्तव विख्यातं त्रिषु लोकेषु नाम पापकरं शुभं सार्थकं कृतमद्यैव जन्मनःपाददर्शनादप्रसादनिचयां त्यक्त्वा गधपर्णकुडीमिमां धन्यो वंशो मदीयोग्यजन्मज्ञानं तपो वयः अपोजयस्तदस्तं स कुशासनगदं मुनिः प्रक्षाल्य चरणद्वन्द्वं जलं तच्चिरसादधद गन्धाक्षदं पुष्पमालां धूपां दीपं ददावध दुर्वाङ्गुरान् शमीपत्रं सुतैलं केतकं शुभं खाद्यं स्वल्पं पुरस्ताप्य फलमारण्यकं तथा पुष्पाञ्जलिं मन्त्रभूतां दत्त्वा नत्वा स लज्जितः कदन्नं कथमस्मै तद्देयमित्येव चिन्तयन् अभिप्रायं विदित्वा देवदेवो विनायकः याजे मादकिमन्नं ते गृहे तदीयता मम भक्त्या दत्तं कदन्न मेधिकं स्यादमृदादपि विषं भवति यदत्तं दम्भेनाश्रद्धयान्वितं विस्तीर्णमोदनं शुष्कं भास्करीं बहुधान्यजाम् आस्थापयत् पुरस्तस्य मुनिपत्नी ह्रियान्विता तैलं स सकलं दृष्ट्वा प्राक्संस्तं च बालकाः अभक्षयत्स पक्वान् न सदृशं परमादराद प्रतिग्रासं जलं पीत्वा जकास बलवत्तरम् तदस्तेनो नोदनपात्रं निक्षिप्तो मुनिनाखिलः तज्जलं चलितं दिक्षु बालो रोद्धुं न चाशकद तदो भवद्दश भुजो बुभुजे चौदनं च तैः आश्चर्यं ददृशुर्लोका हसन्तो हस्ततालतः अपूर्वप्रचितो यं जानो जले बाला रुच्या जानु दघ्नजल नयजुर्बोभुजुर्बाला ऋचिया पायशकल्पया साक वैभुक्त गदस्ते देंदु्यता अशोचन्नीतरे पश्चाद सन्वीतरद कोलाहलो महानासीगरे क्व विनायकः केजिदुचुशुक्लगृहे भुनक्ति शीर्णमोदनं रोद्धुं कृता दशभुजो ओदनं च भुनक्ति तैः भुक्ते तस्मिन् विशुद्धे स शुष्कमामलकं ददौ मुखशुद्धिं तेन चक्रे जगदात्मा विनायकः प्रसन्नशुक्लमवदत्प्रीदो भावेन तेन करान् वृणुमहाभागमत्तोयानभिकाङ्क्षसे शुक्ल उवाच सर्वान्नागरिकां त्यक्त्वा भोक्तुं रूक्षान्नमागतः अयमेव वरो महयं यज्जादं तव दर्शनं प्रभो वाक्यानुरोधेन याजे भक्तिं त्वयि स्थिराम् अन्धे मोक्षं च मे देहि येन नावर्तते पुनः न संसारसुखे चित्तं रमते विनायक क उवाच एवमस्त्विदितं प्रोज्य पूर्ववद्विभुजशिशुः गृहं तस्मै चक्रगृहाध्वरं सद्रत्नकाञ्चनम् अत्युत्तमं स्वरूपं च ज्ञानं सम्पदमर्पयद अनुज्ञादो यय उत्ताभ्यामन्यत्र बालकैर्वृदः इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते शुक्लवरप्रधानं नाम त्रयोविंशतितमोऽध्यायः ओम्